श्रीहरे नमः अथ षष्ठोऽध्यायः प्रह्लाद उवाच कौमार आचरेत् प्राज्ञो धर्मान् भागवतानि ह दुर्लभं मानुषं जन्म तदभि अध्रुवमर्ततं यदा हि पुरुषस्येह विष्णो यदेश सर्वभूतानां प्रिय आत्मेश्वरः सुहृत् सुखमैन्द्रियकं दैत्यां देहयोगेन देहिनां सर्वत्र लभ्यते दे दैवात् यथा तत्प्रयासो न यत आयोर्व्ययः परं न तथा विन्दते क्षेमं मुकुन्दचरणाम्बुजं ततो यतेत कुशलक्षेमाय भयमाश्रितः शरीरं पौरुषं यावन्न विभत्येत पुष्कळं पुंसो वर्षशतं ह्यायो तदर्धं साजितात्मनः निर्बलं यतसौराद्र्यां शेतेन्द्रं प्रापितस्तमः मुग्धस्य बाल्ये कौमारे क्रीडतो यातिविंशतिः जरयाग्रस्तदेहस्य यात्यकल्पस्य विंशतिः दुरापूरेण कामेन मोहेन च बलीयसा शेषं गृहेषु तक्तस्य प्रमत्तस्यापयातिः को गृहेषु पुमान्सक्तम् आत्मानं अजिदेन्द्रियः स्नेहपासैर्दृटैर्बद्धम् उत्सहेत विमोचितुं कोन् वर्ततृष्णां विसृजे प्राणोऽभ्योऽपि य यम् क्रीणात्यसुभिः प्रेष्टैस्तस्करसेवको वणिक् कथं प्रियाया नु कम्पिताय सङ्गं रहस्यं रुचिरांश्च सुहृत्सु च स्नेहसित शिशूनां कलाक्षराणामनुरक्तचित्तः पुत्रान् समस्त्रा दुहित् प्रादृन् श्वश्रूर्वा पितरौ च दीनौ गृहान्मनोज्ञोरुपरिश्च दांश्च कर्माणि लोपात विधृप्तकामः औपस्थ्यजह्व्यं बहुमन्यमानः कथं विरज्येत दुरन्तमोहः कुटुम्बपोषाय न भुध्यतेऽर्थं विहतं प्रमत्तः सर्वत्र तापत्र्यदुःखितात्मा निर्विद्यते न स्वकुटुम्बरामः वित्तेषु नित्या विनिविष्टचेता दोषं परवित्त प्रत्येकचाधाव्यजिदेन्द्रियस्तत् अशान्तकामो हरते कुटुम्भी विद्वानपीतं तनुजा कुटुम्बं पुष्णन् समर्थतः विमोचितुं कामदृशां क्रीडा ये घटो विसर्ग त दूरातृत दैत्या दैत्यु शक विषयात्मेशु उपेत नाराएणमादेव स मुक्तसंगैरीशिपवर्ग न्युत प्रीणय तो भक्वा यसों सुराम आत्मत्वात् सर्वभूतानां सिद्धत्वादिक सर्वतः परावरेषु भूतेषु ब्रह्मान्तस्तावरादिषु भौतिकेषु विकारेषु भूतेष्वतमगत्सु च गुणेषु गुणसाम्ये च गुणव्यतिकरे तथा एक एव भगवान् ईश्वरो व्ययः प्रत्यगात्मा स्वरूपेण दृश्यरूपेण च स्वयं व्याप्यव्यापकनिर्देशो ह्यनिर्देश्यो विकल्पितः केवलानुभवानन्दस्वरूपः परमेश्वरः मायया अन्तर्हितैश्वर्या ईयते गुणसर्गया तस्मात् सर्वेषु भूतेषु दयां कुरुतलौ हृदम् आसुरं भावमुन्मुच्य यया तुष्यत्यदोषजः तुष्टे च तत्र किमलभ्यम् अनन्त आद्ये किं धैर्गुणव्यतिहरादिहये स्वसिद्धाः धर्मादयः किमगुणेन च काङ्क्षितेन सारञ्जुषां चरणयोरुपगायतां नः धर्मार्थकामयिति योभिः तस्त्रिवर्ग निगमस्य सत्यम् स्वात्मार्पणं स्वसुहृदपरमस्य पुंसका ज्ञानं तदेतत्तमलं दुरवापमाह नारायणो नरसख किल नारदाय एकान्तिनां भगवतस्ततः किञ्चनानां ज्ञानं विज्ञानसंयुतं धर्मं भागवतं शुद्धं नारदाद्देवदर्शना तैत्यपुत्रावूषूं प्रह्लादत्वं वयं चापि नर्तेन्यं विद्महे गुरुं वेधाभ्यां गुरुपुत्राभ्यां बालानामपि ईश्वरौ बालशान्तः पुरस्तस्य मगत्सङ्घो दुरन्वयः चिन्तिनः संशयं सौम्य शा इति श्रीमद्भागवते महापुराणे सप्तमस्कन्दे प्रह्लादानुचरिते षष्ठोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहराज की जय